पावद् दशकम् नरनारायण अवतारम् दक्षयागम् दक्षो विरिञ्जतनयोत मनोस्तनूजा लप्त्वा प्रसूति मेघशोट च चापकन्या धर्मे त्रयो दश दतौ पितृक्षुस्पदाम् च स्वाहाम् हवेर्बुजि सतीम् गिरिचेत्वदंशे मूर्तिर्हि धर्म गृहिणी सुषुवे भवन्तम् नारायणम् नरसकम् तूर्यगोषा पुष्पोत्करान् प्रववृष नुनुवु सुरौघा दैत्यम् सहस्रकवचम् कवचै परीतम् सागस्रवत्सर तपः समराभिलव्यै पर्याय भवन्तौ शिष्टैककङ्कटममुम्य कदां अन्वाचरन् उपदिशन्न विमोक्षधर्मम् त्वम् प्राप्तृमान् बदरिकाश्रममद्यवासे चक्रोदते समतपो भलनिः दिव्याङ्गना परिवृतम् प्रजिगायमारम् कामो वसन्तमलयानि लबन्तु शाली कान्ताकटाक्षविशिके विगसद्विलासे विद्यन्मुकुर्मु गुरगम्पमुदीक्ष च त्वा बीदत्वया तजगते मृदुहास मन्मानसं विगजुषो त्वमिति ब्रुवाण त्वम् विस्मयेण धैक्षा प्रादर्शयस्वपरिचारककातराक्षी सम्मोकनाय मिलिता मदनादञस्ते त्वद्दासिका परिमलै किलमोहमापो दद्दाम् द्वया च जुगृहोऽस्त्रपयैव सर्वम् सर्वासि गर्वशमनीम् पुनरुर्वशीम् ताम् दृष्टोर्वशीम् तव कथाम् च निशम्यचक्र पर्याङ्कुलो जनिभवन्महिमावमर्षात् एवम् प्रशान्तरमणीयतरावतारा त्वद्दो दि गोवरदकृष्णतनुस्त्वमेव दक्षस्तु धातुरतिलालनयारजोन्तो नाद्यादृतस्त्वयि च कष्टमशान्तिरासीत् येन व्यरुन्दसभवत्तनुमेव सर्वम् मगः स तु कृतशीर्षो देव प्रसादित हरादतलब्धजीव त्वद्भूरितक्रदुवर पुनरापशान्ति सत्त्वम् प्रशान्तिकरपागि मरुत्पुरेशाम् नमो नारायणाय